अथ श्रीमहाभारते आदिपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच एवमुक्तेषु राज्ञा तु पाण्डुपुत्रेषु भारत दुर्योधनः परम् हर्षमगच्छत् स दुरात्मवान् स पुरोचनमेकान्तमानीय भरतर्षभ गृहीत्वा दक्षिणेपाणौ सचिवं वाक्यमब्रवीत् ममेयं वसु सम्पूर्णा पुरोचनवसुन्धरा यथेयं मम तद्वत्ते सतां रक्षितुमर्हसि नहिमेकश्चिदन्योऽस्ति विश्वासिकतरस्त्वया सहायो येन सन्धाय मन्त्रयेयं यथा संरक्षता त मन्त्रं च सपत्नाश्च ममोद्धरा निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना यथा यासि तथा कुरु तत्र गत्वा गृहं गृहम् परमसंवृतम् नगरोपान्तमाश्रित्य कारयेथामहाधनम् यानि द्रव्याणि आग्नेयान्युत सन्तीह तानि सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया मृत्तिकां विश्वयित्वा लेपं कुव्येषु दापय क्षणं तैलं घृतं चैव जतु चैव हि तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः यथा च तन्न पश्येरन् पाण्डवाः आज्ञेयमिति तत्कार्यमपि मानवाः वेश्मन्येवं कृते तत्र गत्वा तान् परमार्चितान् वासयेथाः पाण्डवेयान् कुन्ती च ससहृज्जनाम् आसनानि च दिव्यानि यानानि शयनानि च विधातव्यानि पाण्डूनां यथा पुष्येत वै पिता यथा च तन्न जानन्ति नगरे वा रणावते तथा सर्वं विधातव्यम् यावत्कालस्य पर्ययः ज्ञात्वा च तान् सुविश्वस्तान् शयाना न कुतो भयान् अग्निस्त्वया ततो देयो द्वारतस्तस्य वैश्मनः दह्यमाने स्वकेगेः दग्धा इति ततो जनाः नगर्हयेयुरस्मान् वै पाण्डवार्थाय कर्हिचित् स तथेति प्रतिज्ञाय कौरवायपुरोचनः प्रायाद्रासभयुक्तेन सन्दनेनाशुगामिना स गत्वा त्वरितं राजन् दुर्योधनमते यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि पुरोचनोपदेशे त्रिचत्वारिंशदधिकशततमोऽध्यायः